नारदपुराणम् पूर्वार्थम् अध्यायम् तर्टीन् धर्मराज उवाच देवतायतनम् यस्तु कुरुते कारयत्यपि शिवस्यापि हरेर्वापि तस्य पुण्यफलम् शृणु मातृतः पितृतश्चैव लक्षकोटिकुलान्वितः कल्पत्रयम् विष्णुपदे तिष्ठत्येव न मृदैव कुरुदेयस्तु देयस्तु देवतायतनं नरः यावत् पुण्यं भवेत् तस्य तन्मे निगदशृणु दिव्यदेहधरो भूत्वा विमानवरमास्थितः कल्पत्रयं विष्णुपदे तिष्ठत्येव न मृदैव कुरु देयस्तु देवतायतनं नरः यावत् पुण्यं भवेत्तस्य तन्मे निगदधशृणो दिव्यदेहधरो भूत्वा विमान वरमास्थितः कल्पत्रयं विष्णुपदे स्थित्वा ब्रह्मपुरं व्रजेत् कल्पद्वयं स्थितस्तत्र पुनः कल्पं वश्येद्दिवि तदस्तु योगिनामेव कुले जातोदयान्विदः वैष्णवं योगमास्ताय मुक्तिं व्रजति शाश्वतीं दारुभि कुरु देयस्तु तस्य स्याद्विगुणं फलं त्रिगुणं चेष्टकाभिस्तु शिलाभिस्तच्च दुर्गुणं स्पाण्डिकाभिशिलाभिस्तु दश गुणोत्तरम् ताम्रीभिस्तच्छतगुणं हेम्ना कोडिगुणं भवेद् देवालयं तडागं वा ग्रामं वा पालये तु यः कर्तुश्चतगुणं तस्य पुण्यं भवति भूपदे देवालयस्य शुश्रूषां लेपसेचनमण्डनैः कुर्याद्यसतम् भक्रिया तस्य पुण्यमनन्तकं वेदनाद्विष्ठितो वापि पुण्यकर्मप्रवर्तिताः ते गच्छन्ति धराधारा शाश्वतं वैष्णवं पदं तडागार्थफलं राजन् कासारे परिकीर्तितं कूपे पादफलं ज्ञेयं वाप्यां पद्मा करोन्मिदम् पि शतगुणं प्रोक्तं कुल्यायाम्भोपदे फलम् त्रिषद्भिस्तु धनीकुल्यान्मृदा निष्किञ्चनो जनः तयो भलं समानं स्यादित्याह कमलोद्भवः दद्या दाढ्यस्तु नगरं हस्तमात्रमकिञ्चनः भुवं तयो समफलं प्राहुर्वेदविदो जनाः धनाढ्यकुरुदे यस्तु तडागं फलसाधनं दरिद्रः कुरुदे कूपं समं पुण्यं प्रकीर्तितम् आश्रमं कारयद्यस्तु बहुजन्तूपकारकं स यादिब्रह्मभुवनं कुलत्रयसमन्वितः धेनुर्वा ब्राह्मणो वापि यो वा को वापि भूपदे क्षणार्थं तस्य छायायां तिष्ठन् स्वर्गं नयत्यमुम् आराम आरका राजन् देवता गृहकारिणः तडागग्रामकर्तार पूज्यन्ते हरिणा सह सर्वलोकोपकारार्थं पुष्परामम् जनेश्वर पूर्वजदेवतार्थं वा तेषाम् पुण्यफलं शृणु तत्र यावन्ति वर्णानि कुसुमानि भवन्ति च तावद्वर्षाणि नागस्तो मोददे कुलकोटिभिः प्राकारिणस्तस्य कण्टकाहरणप्रदाः प्रयान्तिब्रह्मणस्थानं युगानां मेघसप्ततिं तुलसीरोपणं यदु कुर्वदे मनुजेश्वर तेषां पुण्यफलं राजन्वददोमे मे निशामया सप्तकोटि माद्र कुलैर्वूक्तो मातृदः पितृतस्तथा वस्येत्कल्पशतं साग्रं नारायणपदे नृप ऊर्ध्वपुन्ह्रधरो यस्तु मूल तुलसीमूलमृत्स्नया गोपिका चन्दनेनापि चित्रपूटमृदापि वाक् गङ्गामृत्तिकया चैव चैवतस्य पुण्यफलं शृणु विमानवरमारूढो गन्धर्वाप्सरसां गणैः सङ्गीयमानचरितो मोददे विष्णुमन्दिरे पत्राणि तुलसी मूलाद्यावन्ति पतितानि वै तावन्ति पादकानि कथानि च तुलस्यां से चेद्यस्तु जलं चुलुकमात्रकं क्षीरोदवासिन सार्धम् वसेदाचन्द्रतारकम् ददादिब्राह्मणानाम् यः कोमलम् तुलसीदलम् स यादिब्रह्मसदने कुलत्रिदयसंयुतः शालग्रामे पयेद्यस्तु तुलस्यास्तु दलानि च स वसेद्विष्णुभवने यावदा भूतसम्भवम् कण्डकावरणं यस्तु प्राकारं वापि कारयेद सोऽप्येकविंशतिकुलैर्मोददे विष्णुमन्दिरे योच्चयेद्धरि पादाब्जन्तुलस्या कोमलैर्दलैः तुलस्या तस्य पुनरावृत्तिर्विष्णुलोकान् नरेश्वर द्वादश्यां पौर्णमा स्यां यः क्षीरेण स्नापयेद्धरिम् कुलायुधयुधसोऽपि मोददे वैष्णवे पदे प्रस्थमात्रेण पयसा यस्नापयदि केशवं कुलायुधायुधयुधसोऽपि विष्णुपुरे वसेत् कृतप्रस्थेन यो विष्णुं द्वादश्यां स्नापयेन्नरः कुलकोटियुधो राजन् सायुज्यं लभते हरेः पञ्चामृतेन यस्नानमेकादश्यां तु पारयेद विष्णोः सा युज्यकं तस्य भवेत् कुल सदा युतैः एकादश्यां पौर्णमास्यां द्वादश्यां द्वा वा द्वा नृपोत्तम नालिकेरोदकैर्विष्णुं स्नापयेत् तद्फलं शृणु दश जन्मार्जिधै पापैर्विमुक्ुतो नृपसत्तमः शतद्वयकुलैर्युक्तो मोददे विष्णुना सह इक्षुक्येन देवेशं यः भूपदे केशवं यक्षभिधृभिः सार्धं विष्णुपदं व्रजेद् पुष्पोदकेन गोविंदं तथा गन्धोदकेन च स्नापयित्वा हरिंभक्त्या वैष्णवं पदमाप्नुयात् जलेन वस्त्रभूतेन यत् माधवं सर्वपापविनिर्मुक्तो विष्णुना सहमोददे। मोदते चिराद्यै स्नापयद्यस्तु रविसङ्क्रमणे हरिं स वसेद्विष्णुसदने त्रिसप्तपुरुषैः सह शुक्लपक्षे चतुर्दश्यामष्टम्यां पूर्णिमादिने एकादश्यां भानुवारि द्वादश्यां पञ्चमी तिथौ सोम सूर्योपरागे च मन्वादिषु युगादिषु अर्धोदये च सूर्यस्य पुष्यार्के रोहिणी बुधे तथैव शनिरोहिण्यां भौमाश्विन्यां तथैव च संज्ञां भृगुं मृगे चैव भृगुरेवदि तथा बुधानुराधायां श्रवणार्के तथैव च तथा च सोमश्रवणे हस्तयोक्ते बृहस्पतौ बुधाष्टम्यां बुद्धा षाढे पुण्ये चान्ये दिने तथा स्नापयेत्पयसा विष्णुं शान्तिमान् वाग्यदशुचिः हृदेन मधुना वापि दध्ना वा तत्फलं शृणो सर्वयज्ञफलं प्राप्य सर्वपापविवर्जितः वसेद्विष्णुपुरे सार्धम् नृपा तत्रैव ज्ञानमासाद्य योगिनामपि दुर्लभम् मोक्षमाप्नोति नृपदे पुनरावृत्तिदुर्लभम् कृष्णपक्षे च दुर्दश्यां सोमवारे च भूपते शिवं संस्नाप्य दुग्धेन शिवसायुज्यमाप्नुयाद नालिके रोद केनापि शिवं संस्नाप्य भक्तिदः अष्टम्यामिन्दुवारे वा शिवसायुज्यमश्नुते शुक्लपक्षे चतुर्दश्यामष्टम्यां वापि भूपते कृदेन मधुना शिवम् तत्साम्यदां व्रजत तिलतैलेन संस्नाप्य विष्णुं वा शिवमेव च स यादि सप्तभिः शिवमिक्षुरसेनापि यस्नापयदि भक्तितः शिवलोके वसेत्कल्पं सप्त सा पुरुषैः सह कृतेन स्नापये लिङ्गमुद्धाने द्वादशी दिने क्षीरेण महाभाग तद्भलं शृणु जन्मायुतार्जितैः पापैर्विमुक्तो मनुजो नृप कोटिसङ्ख्यं समुद्धृत्य स्वकुलं शिवतां व्रजेत सम्पूज्य गन्धकुसुमैर्विष्णुं विष्णुतिथौ नृप जन्मायुतार्जितैः पापैर्मुक्तो व्रजति तत्पदं पद्मपुष्पेण यो विष्णुं शिवं वा पूजयेन्नरः स यादिविष्णुभवनं समन्विताः, हरिं च केतकीपुष्पैः शिवं धत्तु रज्जैर्निशि सम्पूज्य पापनिर्मुक्तो वसीद्विष्णुपुरे युगम् हरिं तु चाम्पकैपुष्पैरर्कपुष्पैश्च चा शङ्करम् समभ्यर्च्य महाराज तत्तत्सालोक्यमाप्नुयाद शङ्करस्याध वा विष्णोर्हृदयुक्तं च दत्वा धूपे नरो भक्रिया सर्वपापैः प्रमुच्यते किल तैलान्वितं दीपं विष्णोर्वा शङ्करस्य वा दत्वा नरः सर्वकामान् सम्प्राप्नोति नृपोत्तम कृतेन दीपं यो दद्या चङ्गरायाधविष्णवे समुक्तसर्वपापेभ्यो गङ्गास्नानफलं लभेद ग्राम्येण वापि तैलेन राजन्नन्येन वा पुनः दीपं दत्त्वा महाविष्णोः शिवस्यापि फलं शृणो सर्वपापविनिर्मुक्तसर्वैश्वर्यसमन्विदः तत्तत्सालोक्यमाप्नोति त्रिःसप्त पुरुषान्विदः यद्यदिष्टतमं भोज्यं तत्तदीशाय विष्णवे दत्त्वा तत्तत्पदं ता ता यादि चत्वारिंशत् पुलान्विदः यद्यदिष्टतमं वस्तु तत्तद्विप्रायदापयेद स यादि विष्णुभवनम् पुनरावृत्तिदुर्लभम् भ्रूणः स्वर्णदानेन शुद्धो भवति भूपते अन्नतो य समम् दानम् न भूतम् न भविष्यति अन्नदप्रणदप्रोक्तप्राणदश्चापि सर्वतः सर्वदानफलं यस्मादन्नदस्य नृपोत्तम अन्नदो ब्रह्मसदनं यादि वंशायुतान्विदः न तस्य पुनरावृत्तिरिति शास्त्रेषु निश्चितं सद्यस्तुष्टिकरं ज्ञेयं जलदानं यतोऽधिकम् अन्नदानान्नृपश्रेष्ठ निर्दिष्टं ब्रह्मवादिभिः महापादकयुक्तो वा युक्तो वा प्युपपादकैः जलदो मुच्यते तेभ्य इत्याह कमलोद्भवः शरीरमनजं प्राणु प्राणानप्यन्न जान्विदुः तस्मादनप्रदो ज्ञेय प्राणदः पृथिवीपदे यज्ञतुष्टिकरं दानं सर्वकामफलप्रदम् तस्मादन्नसमं दानं नास्ति भूपाल भूतले अन्नदस्य पुले जादा आसहस्रं नृपोत्तम नरकं तेन पश्यन्ति तस्मादन्नप्रदो वरः पादाभ्यङ्गं भक्रियुक्रो योतिथे कुरुते नरः सस्नातसर्वतीर्थेषु गङ्गास्नानपुरःसरं तैलाभ्यङ्गं महाराजब्राह्मणानां करोति यः स स्नातोशतं साग्रं गङ्गायां नात्र संशयः रो गीतान् ब्राह्मणान्यस्तु प्रेम्णा रक्षति रक्षकः स कोडिफुलसंयुक्तो वसेद्ब्रह्मपुरे युगम् यो रक्षेत् पृथिवीपालरङ्गं वा योगिणं नरं तस्य विष्णुप्रसन्नात्मा सर्वान् कामान् प्रयच्छति मनसा कर्मणा वाचा यो रक्षेदामयान्विधं सर्वान् कामानवाप्नोति सर्वपापविवर्धितः यो दतादिमहीपालनिवासं ब्राह्मणाय वै तस्य प्रसन्नो देवे स स्वलोकं सम्प्रयच्छति ब्राह्मणाय ब्रह्मविदे यो दद्याद्गां पयस्विनीं स यादिब्रह्म सदनमन्येषामधिदुर्लभम् अन्येभ्यप्रतिगृह्यापि यो दद्याद्गां पयस्विनीं तस्य पुण्यफलं वक्तुं नाहं शक्तोऽस्मि पण्डिता कपिलाम् वेदविदुषे यो ददातिपयस्विनीं स एव रुद्रो भूपाल सर्वपापविवर्धितः विप्राय वेदविदुषे दद्यादुभयतोमुखीं यस्तस्य पुण्यं सङ्ख्यातुं न शाक्तो दशतैरपि तस्य पुण्यफलं राजन्शृणु वक्ष्यामि तत्त्वतः एकदक्रदव सर्वे समग्रवरदक्षिणाः एकदो भयभीतस्य प्राणिनः प्राणरक्षणम् संरक्षति महीपाल यो विप्रम् भयविह्वलम् सस्नाद सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः वस्त्रदो रुद्रभवनं कन्यादो ब्रह्मणः पदम् हे माधो विष्णुभवनं प्रयादि स्वकुलान्वितः यस्तु कन्यामलङ्कृत्य ददात्यध्यात्मवेदिने शतवंशसमयुक्तः सव्रजेद्ब्रह्मणपदं कार्तिक्यां पौर्णमास्यां वा आषाढ्यां वापि भूपते वृषभं शिवतुष्ट्यर्थमुसृज्येत् तत्फलम् शृणु सप्त जन्मार्जितै पापैर्विमुक्तो रुद्ररूपभाक् कुल सप्तति संयुक्तो रुद्रेण सह मो ददे शिवलिङ्गाङ्गितम् कृत्वा मखिशम् यः समुत्सृजेद न तस्य यादना लोको भवेन्नृपति सत्तम ताम्बूलदानं ह्य कुर्याच्छक्तितो नृपसत्तम तस्य विष्णुप्रसन्नात्मा ददात्यायुर्यश श्रियं क्षीरो हृददश्चैव मधुदो दधितस्तथा दिव्याब्दायुधपर्यन्तं स्वर्गलोके महियते। प्रयादि ब्रह्मसदनमिक्षुदादा नृपोत्तमं गन्धध पुण्यफलदप्रयादि ब्रह्मणः पदम् गुडे क्षुरसदश्चैव प्रयाति क्षीरसागरं जलदोयादि जलदोयादिसूर्यलोकमनुत्तमं विद्यादानेन सायुध्यमाधवस्य व्रजे नरः विद्यादानम महीदानं गोदानं चोत्तमोत्तमं नरकादुद्धरन्ध्येव वा जपवाहन दोहनात् सर्वेषामपि दानानां विद्यादानं विशिष्यते विद्यादानेन सायुज्यं विष्णोर्यादिनृपोत्तमनरस्त्विन्दनदानेन मुच्यते ह्युपपादकैः शालग्रामशिलादानं महादानं प्रकीर्तितम् यद्दत्त्वा मोक्षमाप्नोति लिङ्गदानं तथा स्मृतं ब्रह्माण्डकोडिदानेन यद्बलं लभते नरः तद्बलं समवाप्नोति लिङ्गदानान्न संशयः शालग्रामशिलादाने ततोऽपि द्विगुणं फलं शालग्रामशिलारूपी विष्णुरेवेदि विश्रुतः यो ददादिनरो दानं गृहेषु महतां प्रभो गङ्गास्नानफलं तस्य निश्चितं नृपजायते रत्नान्विद सुवर्णस्य प्रदानेन नृपोत्तम भुक्तिमुक्तिमवाप्नोति महादानं व्यधस्मृतं नरो माणिक्यदानेन परमोक्षमवाप्नुयाद ध्रुवलोकमवाप्नोति वज्रदानेन मानवः स्वर्गं विद्रुमदानेन रुद्रलोकमवाप्नुयाद प्रयादि यानदानेन मुक्तादानेन चैन्दवं वैडूर्यतो रुद्रलोकं पुष्परागप्रतस्तथा पुष्परागप्रदानेन सर्वत्र सुखमश्नुदे अश्वदोष्यश्वसान्निध्यं चिरं व्रजति भूमिप गजदानेन महदा सर्वान् कामानवाप्नुयाद प्रयादि यानदानेन स्वर्गं स्वर्यानमास्थितः महिषीदो जयत्येव क्ष्यपमृत्युं न संशयः गवां तृणप्रधानेन रुद्रलोकमवाप्नुयाद वारुणं लोक माप्नोदि महिषलवणप्रदः स्वाश्रमाचारनिरता सर्वभूतहितेरथाः अदाम्भिका गदा कागदासूया प्रयान्ति ब्रह्मणः पदं हरिपादार्चनरदाः प्रयान्ति सदनं हरेः सत्सङ्गाह्लादनिरदाः सत्कर्मसु सदोद्यदाः पराभवादविमुखाः प्रयान्ति हरिमन्दिरं नित्यं हितकरा ये दुर्ब्राह्मणेषु जगोषु परस्त्रीसङ्गविमुखा न पश्यन्ति यमालयं जितेन्द्रियाजिदहरा गोसु क्षान्तास् सुशीलिनः ब्राह्मणे सुमाशीलाः प्रयान्ति भवनं हरेः अग्निशुश्रूषवश्चैव गुरुशुश्रूषकास्तथा पदि शुश्रोषणरदा न वै सदा देवार्चनरद हरिनामपरायणाः प्रदिग्रहनिवृत्ताश्च प्रयान्ति परमं पदम् अनाथं विप्रकुणपं ये दहेयोर्नृपोत्तम अश्वमेधसहस्राणां फलमश्नुवदे सदा पत्रैपुष्पैफलैर्वाभिजलैवा मनुजेश्वर पूजयर्हिदं लिङ्गमच अर्येत्तत् फलं शृणो अप्सरोगणगन्धर्वैस्तूयमानो विमानगः प्रयाधिशिवसान्निध्यमित्याहकमलोद्भवः चुलुकोदकमात्रेण लिङ्गं संस्नाप्य भूमिप लक्षाश्वमेधजं पुण्यं सम्प्राप्नोदिन संशयः पूजया रहितं लिङ्गं कुसुमयुर्योजयेत्सुधीः अश्वमेधायुधफलं भवेत्तस्य जनेश्वर भक्ष्यैर्भोज्यैफलैर्वापि शून्यं लिङ्गं प्रपूज्य च शिवसायुज्यमाप्नोति पुनरावृत्तिवर्जितं पूजयारहितं विष्णुं योच हे दर्कवंश च जलेनापित्स सालोक्यं विष्णोर्यादिनरोत्तम देवतायदने यस्तु कुर्यात्समार्जनं सुधीः यावत्पांसु युगावासं वैष्णवे मन्दिरे लभेद शीर्णं स्फटिकलिङ्गं तु यः संदध्यान्नृपोत्तम सदजन्मार्जिधैः पापैर्मुच्यते सदु सदुमानवः यस्तु देवालये राजन्नपि गोचर्ममात्रकम् जलेन शिञ्जेद्भूभागं सोऽपि स्वर्गं लभेन्नरः गन्धोदकेन यः शिञ्जेद्देवतायतने भुवं यावत् कणानुकल्पं तु तिष्ठदे देवसन्निधौ मृदाधाधुविकारैर्वा यो लिम्बे देवदागृहं सकोटिकुलमुद्धृत्य यादिसाम्यं मधुद्विषः शिलाचूर्णेन यो मर्त्यो देवाकारं तु लेपयेत् स्वस्तिकादिनिवा कुर्या तस्य पुण्यमनन्तकं ह्यः कुर्याद्दीपरचनां देवताय धने नृप तस्य पुण्यं प्रसङ्घ्याख्यं नोत्सहे दशतैरपि अखण्डदीपं ह्यः कुर्याद्विष्णोर्वा शङ्करस्य च क्षणे क्षणेश्वमेधस्य बलं तस्य न दुर्लभम् अचितं शङ्करं दृष्ट्वा विष्णुं वापि न मे तु यः स विष्णुभवनं प्राप्य मोदते च युगायुतं देव्या प्रदक्षिणामेकां सप्तसूर्यस्य भूमिप तिस्रो विनायकस्यापि च दस्रो विष्णुमन्दिरे कृत्वा तत्तद्गृहं प्राप्य मोददे युगलक्षकं यो विष्णुर्भक्तिभावेन तथैव गो द्विजस्य च प्रदक्षिणां चरितस्य ह्यश्वमेधः पदे पदे काश्यामाहेश्वरं लिङ्गं प्रणमे तु यः न तस्य विद्यते कृत्यं संसृतिर्नैव शिवं प्रदक्षिणं कृत्वा सव्येनैव विधानतः नरो न च्यवदे स्वर्गाशङ्करस्य प्रसादतः स्तुत्वा स्तोत्रैर्जगन्नाथं नारायणमनामयं सर्वान् कामान् अवाप्नोति मनसा यद्यदिच्छति देवदायधने भक्तियुक्तः प्रनृत्यति आयदेवास भूपालरुद्रलोके च मुक्तिभाक् ये वाद्यं प्रकुर्वन्ति देवतायतने नराः ते हंसयानमारूढा व्रजन्दि ब्रह्मणः पदं करतालं प्रकुर्वन्ति देवतायतने ते सर्वपाप ते विमानस्ता युगायुतम् देवतायतने यदु खण्डानादं प्रकुर्वदे तेषां पुण्यं निगदितुं न समर्थशिव स्वयं धैरीमृदङ्गपटकमुरजैश्च स डिण्डिमैः सम्प्रीणयन्ति देवेशं तेषां पुण्यफलं शृणु देवस्त्रीगणसंयुक्ता सर्वकामयि समर्चिताः स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपञ्चकम् देवतामन्दिरे कुर्वन्नरः शङ्खं नृप सर्वपापविनिर्मुक्तो विष्णुना सह मोददे तालकां स्यादिनिदनदं कुर्वन् विष्णुगृहे नरः सर्वपापविनिर्मुक्तो विष्णुलोकमवाक्नुयाद यो देवः सर्वदृग्विष्णुर्ज्ञानरूपी निरञ्जनः सर्वधर्मफलम् पूर्णं सन्तुष्टप्रददादि च यस्य स्मरणमात्रेण देवदेवस्य च क्रिणः सफलानि भवन्त्येव सर्वकर्माणि भूपदे परमात्मा जगन्नाथसर्वकर्मफलप्रदः सत्कर्मकर्तृभिर्नित्यं स्मृदसर्वार्थिनाशनः तमुद्दिश्य कृतं यच्च तदानन्द्याय कल्पदे धर्माणि विष्णुश्च फलानि विष्णुः कर्माणि विष्णुश्च फलानि भोक्ता कार्यं च विष्णुकरणानि विष्णुरस्मान्न किञ्चिद्व्यतिरिक्तमस्ति इति श्रीबृहन्नारदपुराणे पूर्वभागे प्रथमपादे धर्मानुकथनं नामत्रयो दशोध्यायः, ओम।